गणेशपुराणम् क्रीडाखण्डम् अध्यायम् फोर्टि गृत्समद उवाच तथः केदारमगमन् सर्वे देवर्षयस्तदा व्यजिज्ञपुः पद्मभवं सशिवं सर्ववित्तमं प्रणम्य शिरसा सर्वे वागेन्द्राग्निपुरःसराः देवर्षय ऊजुः पदभ्रष्टा वयं देवा स्वाचारन्मुनयोऽपि च दुरासदभिया देवस्नानं कर्तुं न च क्षमाः केनास्मै वरो दत्तो येनासौ भुवनेश्वरः जाधो दुष्टो वधश्चास्य कस्माद्दे दद्विचिन्त्यताम् येनैव सौख्यं लोकानां तत्कर्तव्यं दयालुभिः क उवाच इति तद्वचनं श्रुत्वा प्रोवाचा चतुरानः उपायं कथयिष्यामि तद्वधाय सुरर्षयः यदातेन तेन तपस्तप्तं दारुणं बहुवासरं ददावस्मै वरा देवो ह्यनन्दानम्बिकापदिः यनं यो खादयेद्देवः स नास्ति भुवनत्रये कदाचिद्देवदेवोत्सौ गुणत्रय विभागकृत अहं शिवश्च विष्णुश्च त्रेधा जाता यदाज्ञया गुणत्रय विभागात्स गुणेश इति पप्रधे विश्वव्यापीजमायाविश्वकर्तापहारकः गुणादिदो गणेशश्च परात्परतरशिवः बिभ्रयात्सोपतारं चेत् पार्वत्या जठरे विभुः तदैव तस्य नाश्यस्यान्नान्यथा सुरसत्तमः स्तुवन्तु सर्वे तस्मात् तं विश्वचिन्ताकरं प्रभुं आदौ कुरुदतां देवीं प्रसन्नां भवल्लभां तत्ते जत्सम्भवो बालो दुरासदवधे भवेद् एवमेव वरस्तेन शङ्करेण कृतोस्यः मुनिरुवाच एवं वाक्यं ब्रह्ममुखाश्रुत्वा देवाजहर्षिरे तुष्टुवोर्भवकान्तां तां भवानीं भक्तवत्सलाम् देवर्षय ऊचुः न जगदेहेदुं परात्परां विश्वविचित्रशक्तिम् अचिन्द्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशां धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजङ्गमानां त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुताम् त्रिदशस्वरूपां नता स्महे देवि वरप्रदान्त्वाम् विष्णोर्विमोहां पदतां सुराणां भक्तार्तिहन्त्रीम् सकलार्थदात्रीं त्रैलोक्यकर्त्रीं निखिलार्थगोत्रीं एवं स्तुदा जगाद सुरसत्तमान् वृणुध्वं वाञ्छितं देवास्तोत्रे ददामि सकलान् कामान् भवतां ये मनोगतान् तद सुरा सर्वे वृत्तान्तं ब्रह्मणेरिदम् तद ऊजे च तान् देवीस्तु शुभा शुभस्य यकर्ता सर्वा सिद्धिकरो विभुः सर्वस्य तदत्ते तुष्टु सर्व भक्त्या सर्वे विनायकं देवर्षय ऊचु नतात्मो विघ्नकर्दारं दयालुं सर्वपालकं सर्वस्य जगदो खेदुं सर्वव्यापिनमीश्वरम् अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकं दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिं स्वेच्छो पाकाकृतिं नानाख्यवतारथं सदा गुणाधितं गुणक्षोपं गुरुं विभुम् एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तः शुण्डादण्डमुखं विघ्ननाशनं पापकारकं भक्तानां वरदं नित्यं सृष्टिस्थित्यन्धकारकम् अनादिमध्यनिधनं भूतादिभूतवर्धनं त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनं लम्बकर्णं बृहद्भानुम् व्याल शुभम् शुभं स्तुत्वा तुदं देवं गणेशं सर्वसिद्धिदं शुश्रुवुस्तेन भो वाणीं मा भूद्वो मानसोज्वरः दुरासदं महावीर्यं हनिष्यामि भयङ्करम् युधि श्रुत्वा न पुनः शङ्करमाययुः ध्याननिष्ठं च ते दृष्ट्वा प्रणम्योचुश्च पार्वतीं देवाऊजुः न जानीमो नभोवाणीं केने मामीरिदां शुभे हरस्य ध्याननिष्ठात्वात् कथं कुर्मो किलेश्वरी दैत्यो देवा इदानीं यो निश्चरं स्मरिष्यसि तस्या क्रोधेन तप्ताया निःश्वसन्ध्याः पुनः पुनः आस्यान्नासापुडान्नेत्रान् निःसृतं तेज उत्तमं ज्वालामालाकुलं दग्धुं ब्रह्माण्डमिव चोद्यतम् प्रत्याहदृश्य सर्वे ददृश्युर्ज्ञानचक्षुषा वैनायकीं महामूर्तिं दश हस्तां तमोऽनुदां बिभ्रति मुकुटं रत्नकोडिसूर्यतमप्रभां विद्युत्प्रभा महारत्नकुण्डले रदनं शुभं दिव्याम्बरे च सिन्धूरमायुधानि दशैव च कस्तूरीतिलकम् भाले मालां हृदि फलान्विताम् यत्तेजो व्यानशे विश्वं प्रलयानलसन्निभं व्यालयज्ञोपवीतं ज्ञात्वा नेमुसुरास्तदा प्रार्थया मा सुरथदे आनन्दघनमीश्वरं दृष्टोदि योगगम्यस्त्वमप्रतर्क्योऽभ्ययस्वराड निरामयो निराभासो जरो जरोमरः सर्वस्वरूपः सर्वेशः स्वप्रकाशो जगन्मयः अव्यक्तो जगदाधारो ब्रह्मरूपो ब्रह्मरूपोऽखिलार्थधृकपुराणपुरुषो ज्ञानमूर्तेर्वाचामगोचरः वयं धन्या वयं धन्या दृष्ट्वा तं न नृदुः सुराखा मुनिरुवाच यथा देवैर्वणितोऽसौ तेजोरूपी विनायकः एवमेव वा जगन्मादा प्रशंस गजाननं निर्गुणं यन्निराकारमव्यक्तं सर्वगं परं ध्यानगम्यं चिदाभासं सच्चिदानन्दविग्रहं सर्वव्यापी जगद्धे दुरद्यया वद्विचिन्तितम् विनायकस्वरूपेण साकारम् दृष्टमद्य यद अवतीर्णं मम गृहे कन्दुदैत्याननेकशः जगदामुपकाराय पातुं विश्वं चराचरम् पुपूजा पार्वतीभक्त्या ददौ सिंहं स्ववाहनम् वक्रतुण्डेदिनामास्य दद्रे सर्वार्धदं नृणां दुरासदस्य च वधं प्रार्थयामः सम् तदा देवानां च पदप्राप्तिं निःसपत्नामयाचयत इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शोध्यायः ॐ